श्रीहरये नमः द्वितीयस्कन्दः प्रथमोऽध्यायः श्रीसुख उवाच वरीयान् एष प्रश्नकृतो लोकहितं नृपाम् आत्मवित्सम्मतः पुंसां श्रोतव्याधिषु यः परहां श्रोधव्याधीनि राजेन्द्र नृणां सन्ति सहस्रगहाम् अपश्यतामात्मतत्त्वम् गृहेषु गृहमेधिनां निद्रया ह्रियते नक्तं व्यवहेन च भावयः दिवाचार्तेह य राजन् वा देहापत्यकलत्रादिषु आत्मै सन्येषु अवस्त्वपि तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति तस्माद् भारतसर्वात्मा भगवान् ईश्वरो हरिः श्रोतव्यकीर्तितव्यश्च स्मर्तव्यश्चेश्च ताभयम् एतावां साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठयां जन्मलाभः अन्ते नारायणस्मृतिः प्रायेण मुनयो राजन्निवृत्ता विदिशे धतः नैर्गुण्यस्तारमन्ते स्म गुणानुकथने हरेः इदं भागवतं नाम पुराणं ब्रह्मसंमितम् अधीतवान् परिनिष्ठितोपि नैर्गुण्य उत्तमश्लोकलीलया गृहीतचेता राजर्षे आख्यानं यदधीतवान् तदहं हे विधास्यामि महापौरुषिको भवान् यस्य श्रद्धतमासु स्यान् मुकुन्दे मतिषति एतन्निर्विध्यमानानाम् इच्छदाम् अकुतो भयम् योगिनाम्नृपनिर्णीतं हरेर्नामानुकीर्तनं किं भ्रमत्तस्य बाहुभि वरं मुहूर्तं विदितं घटेतश्रेयसेयतः खड्वाङ्गो नाम राजर्षेर्ज्ञात्वायत्तां विहायुषः मुहूर्तात् सर्वमुत्कृष्ट गतमानभयं हरिं तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः उपकल्पय तत्सर्वं तावत् यत् साम्परायिकम् अन्धकाले तु पुरुष आगते गतसाध्वसः चिन्ध्यात् असङ्गशस्त्रेण स्पृहां देहेऽनुये गृहात् प्रवृजितो धीरः पुण्यतीर्थजलाप्लुतः शुचौ विविक्त आसीनो विधिवत्कल्पितासने अभ्यसेन्मनसा शुद्धं त्रिवरुत् ब्रह्माक्षरं परं मनो यच्छे जितश्वासो ब्रह्मबीचम् मनसा बुद्धिशारथिः मनःकर्मभिराक्षिप्तं सुभार्ते धारयेत् धिया तत्रैकावयवं ध्यायेत् अव्युश्चिह्नेन चेतसा मनो निर्विषयं युक्त्वा तथः किञ्चन पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति रजस्तमोऽभ्यामाक्षिप्तम् विमूढं मन आत्मनः यच्चेद्धारणया धीरो हन्ति या तत्कृतं मलं यस्यां संधार्यमानायां योगिनो भक्तिलक्षणः असुसम्भद्यते योग आश्रयं भद्रमीक्षतः राजोवाच यथा सन्धार्यते ब्रह्मन्धारणा यत्र सम्मता यादृशी वा हरे दासोपुरुषस्य मनोमलं श्रीसुख जितासनो जितश्वासो जितशङ्गो जितेन्द्रियः स्थूले भगवतो रूपे मनःसन्धारये धिया विशेषस्तस्य देहोऽयं स्तविष्ठश्चस्तवीयसां यत्रेधं दृश्यते विश्वं भूतं भव्यं भवस औण्डघोषे शरीरेऽस्मिन् सप्त वरणसंयुते वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः पाधालमेतस्य किवादमूलं पठन्ति पार्ष्णि प्रभदे रसातलं महातलं विश्वश्रुजो गुल्पौ तलातलं वैपुरुषस्य पुरुषस्य जङ्घे द्वे जानुनी विश्वमूर्ते ऊरुद्वयं वितलं चातलं च मकीतलं तज्झघनं महीपते तभस्तलं न बिसरो उरस्थलं ज्योतिरनिगमस्य ग्रीवामहर्वै जनोऽस्य तपोरराटीं विदुरातिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्षणः इन्द्रादयो बाघव आहुरुश्रा करुणौ दिश्रोत्रममुष्यशब्दः नासत्यधस्रो परमस्य नाशे यस्य अग्निरिद्धः द्यौ रक्षणि चक्षुरभूतधङ्गक्ष्माणि विष्णोरहणीवुपे च तद्भ्रूभिजृम्भः परमेष्टिधिष्ण्यमां भोस्य तालुरस एव जिह्वां छन्दांसि अनन्तस्य शिरो गृह्णन्ति धंष्ट्रायमस्नेहकला द्विजानी हासो जानोन्माधकरी च माया धुरन्तसर्गो यदभाङ्कमोक्षः व्रीढोत्तरोष्ठो धर्मस्तनो धर्मपदोऽस्य पृष्ठं कस्तस्य मेढ्रं नद्योऽस्य नाड्यो तनूरुहाणि महीरुहा विश्वधनोर्भेन्द्र अनन्तवीर्यश्वसितं मातरिष्वा गतिर्वयः ईशस्य केशान् विदुरम्बुवाघान् वासस्तु सन्ध्यां कुरुवर्यभूम्नः अव्यक्तमाहो हृदयं मनश्च सशन्त्रमाः सर्वविकारघोषः विज्ञानशक्तिम् महिमामनन्ति सर्वात्मनोऽनन्तःकरणं गिरित्रम् अश्वाश्वधर्युष्ट्रगजानकानि सर्वे मृगापसवश्रोणि वयांस्याकरण विचित्र मनोर्मनीषामनुजोनिवासः गन्धर्वविद्याधरचारणाप्सर स्मरस्मृतिरसुरानिकवीर्यः ब्रह्माणनं क्षत्रभुजो महात्मा विडूरुरङ्घ्रीश्रितकृष्णवर्णनः नानाभिधाम्बीज्यगणोपबन्धो द्रव्यात्मकः कर्म विधानयोगः इयान साबीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते सन्धार्यतेऽस्मिन् वपुषिक्तविष्टे मनस्वभुद्ध्यान्न योतोऽस्ति किञ्चित् स आत्मा यथा स्वप्नजने शितैतः तं सत्यमानान्धनिधिं नान्यत्र सज्जेत्यत आत्मपातः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्तन्ते महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिके जय